नारदपुराणं पूर्वार्थम् अध्यायं 102. अण्ड् टु ब्रह्मोवाच शृणुपुत्र प्रवक्ष्यामि पुराणं लिङ्गसं नितं पठतां शृण्वतां चैव भुक्तिमुक्तिप्रदायकं यच्च लिङ्गाभिधं तिष्ठन्वह्निलिङ्गे हरोऽभ्यधाद मह्यं धर्मादिसिद्ध्यर्थं अग्नि कल्पकथाश्रयम् तदेव व्यासदेवेन भागद्वयसमन्वितं पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम् तदेकादशसाहस्रं हरमाहात्म्यसूचकं परं सर्वपुराणानां सारभूतं जगत्त्रये पुराणोपक्रमे प्रश्नसृष्टिसंक्षेपतः पुरा योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परं लिङ्गोद्भवत् तदम्भाज कीर्तिदासि ततः परम् सनत्कुमारशैलादिसंवादश्चाधपावनः ततो दाधीचरितम् युगधर्मनिरूपणम् ततो भुवनकोशाख्यासूर्यसोमान्वयस्तदः ततश्च विस्तरा सर्वा तदश्च विस्तरसर्गस्त्रिपुरख्यानकम् तथा लिङ्गप्रतिष्ठा च तथा पशुपाश विमोक्षणम् शिवव्रतानि च तथा सदाचारनिरूपणम् प्रायश्चिदान्यरिष्टानि काशी श्रीशैलवर्णनम् अन्धकाख्यानकम् पश्चाद्वाराहचरितं पुनः नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः शैवम् सहस्रनामाथ दक्षयज्ञविनाशनम् कामस्य दहनम् पश्चात् गिरिजाह्या करग्रहः ततो विनायकाख्यानम् नृपाख्यानम् शिवस्य च चा उपमन्युकथा चापि पूर्वभाग इदीरितः विष्णुमाहात्म्यकथनमम्बरीशकथा तदः सनत्कुमारनन्दीशसंवादश्च पुनर्मुने शिवमाहात्म्यसंयुक्तस्नानयागादिकम् ततः सूर्यपूजा विधिश्चैव शिवपूजा च मुक्तिदाम् दानानि बहुधाकृतानि श्राद्धप्रकरणम् ततः प्रतिष्ठातं त्रमुदितं तदोघोरस्य कीर्तनम् वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः त्र्यम्बकस्य च माकाम्यं पुराणश्रवणस्य च एवं चोपरिभागस्ते लैङ्गस्य कथितो मया व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितं फाल्गुन्यां पूर्णिमायां यो दध्यापक्या द्विजातय हे द्विजातये सलभेच्छिवसायुज्यं जरामरणवर्जितं यः पठे शृणुवा ज्वापि लैङ्गं पापापहं पापा नरः स भुक्तभोगो लोकेऽस्मिन्नन्दे शिवपुरं व्रजेते लिङ्गानुक्रमणिमेधां पठेद्य शृणुयात्तथा वोभौ शिवभक्तौ दु लोकद्वितयभोगिनौ जायतां गिरिजा भर्तृ प्रसादानात्र संशयः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बहुदुपाख्याने चतुर्थपादे लिङ्गपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः ओम्